ॐ वरमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे द्वादशोऽध्याय है व्यास उवाच एवं प्रबोधितपित्रायशङ्को प्रणतो नृपे तथेते पितरम्प्रह प्रेम गद्गदया गिरा हूय मन्त्रज्ञान वेदशास्त्रे विचार अभिषेकाय सम्भारन् करयामास सत्वरम् सलिलम् सर्वतीथानां समान्नाय विशाम्पतिः प्रकृतिश्च समाहूय सामन्तान्धोपतिं तथा पुण्यन्निवधि विधिवत्तस्मै सनमोत्तम अभिषे सुताम्रजुत्त तृतीय पुण्य जगह भारुत वनेथे चार दुशर तप काले प्राप्त योजित त्रीदशर इंद्र सीपस्थो राजर्विवत्सरा योवाच पूर्वं भगवता प्रोक्तं कथा योगेन साम्प्रतम् सत्यव्रतो वसिष्ठेन शक्तो दोग्ध्रिवधात् किरे कुपितेन पिशाच प्रापितो गुरुणा ततः कथम् मुक्तः पिशाचत्वात् इत्येतत् संशयप्रभो न सिंहासनयोग्यो हि भवेत् शाप समन्वितः मुनिना मोचितः शापात् केनान्धेन च कर्मणाय एतन्मे ब्रूहि विप्रसे शापभोक्षणकारणम् आनीतस्तु कथं विप्रा आनीतस्तु पित्रा स वसिष्ठेन च सप्तोषौ सद्य पैशा च तं गत हे दुर्वेशश्चाति दुर्दश हे सर्वलोकभयङ्करहे देवी भक्त्या सत्यवते न तया प्रसन्नया राजन् दिव्यदेहे कुतक्षणाय विशाचष्टं गतं तस्य पापं चैव क्षयं पिपाप्मा चाति तेजस्वी सम्भूतस्तत्कृपामृतां प्रतिष्ठोऽपि प्रसन्नात्मा दातः शक्ति प्रसा दतः पितापि च बभूवास्य प्रेमयुक्तस्तनुग्रहाय राज्यं चास धर्मात्मा मुते पितरि पार्थिवः इजे विविध यज्ञै देवदेवीं सनातनीं तस्य पुत्रो बभूवाथ हरिश्चन्द्रः सुशोभनः रक्षणै चात्र निर्दिष्टै संयुते चातिसुन्दरः सुतं कृत्वा त्रिशङ्कुः पृथिवीपतिः मानुषेण शरीरेण स्वर्गं भोक्तुम् मनोदधे त्याश्रमं गत्वा प्रणम्य विधिवन् नृपे वाचे वचनं प्रीतः पताञ्जलि पुटस्थ राजोवाच ब्रह्मपुत्रे महाभाग सर्वमन्त्रविचारदय विज्ञप्तं मे तु मनसा श्रुतमर्हसि तापस इच्छा समुत्पन्नाय स्वर्गलोक सुखायते अनेनैव शरीरेण भोगान् भोक्तु ममानुषान् अप्सरोभिश्च संवासः क्रीडितुं नन्दनैव ने देव गन्धर्वगानं च श्रोतव्यं मधुरं किर याजय तं मुखेनाशो तादृशेन यथानेन शरीरेण वसे लोकं त्रिविष्टपम् समर्थोऽसि मनुश्रेष्ठ कुरु कार्यं ममाधुना प्रापयाशु मखं कृत्वा देवलोकं दुरासुरं वसिष्ठवाच राजन्मानुष देहेन स्वर्गे वासु दुर्लभ उतश्च हि द्रुवं कथितः पुण्यकर्मणा तस्माद्दिभेमि सर्वज्ञ दुर्लभरसा अप्सरोभिश्च संवासो जीवमानस्य दुर्लभुरु यज्ञानं वाप्स्य गातो वाच इत्याकरणे वच तस्य राजा परमदुर्मनः उवाच वचनं भूयो वसिष्ठं पूर्वरोषितं नं याजसे ब्रह्मन् गर्वाद्वेषाच्च मां यदि अन्यं पुरोहितं कृत्वा यक्षेऽहं किल साम्पतम् तच्छ्रुत्वा वचनं तस्य वसिष्ठकोपसंयुतः प्र भूपतिं चेतिं चाण्डालो भवदुर्म अनेन तं शरीरेण स्वपचो भव तत् सर्वं स्वर्ग कुन्तनपापीठ सुरभिधदूषित ब्रह्मपत्नी हरो चिन् धर्ममार्ग विदूषक न ते स्वर्ग गते पाप कुतस्यापि कथं जनय इत्युक्तो गुरु नाराजन्शङ्खो तत्क्षणादपि तत्र तेन शरीरेण बभूव स्वपचाकृतिः कुण्डलै जाते तस्य च दक्षणात् देहे चन्दनगन्धश्च विगन्धो ह्यभवत्तरा नीलवर्णेथ सञ्जाते दिव्ये पीताम्बरे तनो गजवर्णो भवद्देह शापात्तस्य महात्मनः शक्ति शक्त्युपासिकरोषेण फलमेतद् अभुन्दृप तस्मात् श्रीशक्ति भक्तो हि नवमान्यकदाचन गायत्रे जपनिष्ठो हि प्रसिष्ठो भू मुनिसत्तमः पुण्यं निजं देहम् राजा दुःखम् अवाप्तवान् न जगामय गृहे भितो ययो चिन्तयामासुःखा ते तु शङ्कुः शोकविह्वलः किं करोमि क्व गच्छामि देहो मे तीव निन्दितः कर्तव्यं नैव पश्यामि येन मे दुःखसंशय हे गृहे गच्छामि चेत् पुत्रः पीडितोद्य भविष्यति आर्यापि स्वपचं ङ्गीकारं गरिष्यति सचिवा नादरिष्यन्ति वीक्ष मामिदृशं पुनः ज्ञातो बन्धुवर्गश्च सङ्गतो न भविष्यति सर्वैस्त सर्वै त्यक्तस्य मे नोनम् जीवितान्मरणं वरं विषं वा भक्षयित्वाद्य पतित्वा वा जलाशये कृत्वा वा कण्ठपाशं च देहत्यागं करोम्यहम् अग्नो वा ज्वलिते देहम् ज्योम् हि विधिवद्बलात् कृत्वा वा नशनं प्राणायामि दूष दूषितान्दुषम् आत्महत्या भवे च शापश्च अत्या दोषा भवेदपि पुनर्विचार्य भोपाले चेतसा समचिन्तयते आत्महत्या न कर्तव्या सर्वथैव मया धुनाये, भोक्तव्यं सकृतं कर्म देहे नानेन कानने भोगे न स्वीपाकस्य भविता सर्वथा क्षयः आरब्धकर्मणा भोगात् अन्यथा न क्षयो भवेत् तस्मान् मन्त्र तस्मान् मया अत्र भोक्तव्यम् कुतं कर्म शुभशुभं कुर्वन् पुण्याश्रमाभ्यासे तीर्थानां सेवनं तथा मरणं चाम्बिकायतु साधूनां सेवनं तथा एवं कर्मक्षयं नूनं करिष्यामि वनेव सन् भाग्ययोगात् कदाचित्तु भवेत् साधुसमागमः इति सञ्चिन्त्य मनसा त्यक्त्वा स्वनगरम् नृपः गङ्गातीरे गतः कामम् शोचन् तत्रैव संस्थितः हरिश्चन्द्रे तदा ज्ञात्वा पितुः शापस्य करणम् दुःखितः सचिवान् तत्र प्रेषयामास तत्र गत्वाशु तम् उचो प्रश्रयान्विताः प्रणम्य श्वपचाकारम् निश्वसन्तं राजन् पुत्रेण ते नूनम् प्रशितान्तम् समुपागतान् अवैहि सचिवान् तं नो हरिश्चन्द्रज्ञयासितान् यत्त शोणुनराधिपये आनयध्वं नृपं यूयं सम्मान्य पितरं मम तस्मात् राजन् समागच्छ राजं प्रतिगतव्यथे सेवां सर्वे करिष्यन्ति शचिवश्च प्रजाय गुरुं प्रसादयिष्यामहे स्व यथा सोदये तव प्रसन्दोषो इति पुत्रेण ते राजन् कथितम् बहुधा किले तस्मात् जमानभेवासु रोचतां निज सद्मरि दासवाच इति तेषां श्रुत्वा भाषितं स्वपचाकृतिः च ग्रं गमनायासो न मतिं कृतवान् सह वाक्यम् पर्यन्तु सचिवः पुरम् महाभाग कुर्वन्तु वचनार्थये नागमिष्याम्यहम् पुत्र गुरुराजम् मतन्द्रितः मानयन् ब्राह्मणान् देवान् यजन् यज्ञै नाहं सपचवेषेण गृहीतेन महात्मभिः आगमिष्याम्ययोध्यायाम् सर्वे गच्छन्तु माचरम् पुत्रम् सिंहास निप्ये हरिश्चन्द्रम् महाबलम् कुर्वन्तु राज्य कर्माणि योयम् तत्र ममाज्ञया इत्यादिष्टा सदे तु रुदु चासुराभृशम् नत्वा तं च वनाश्रमात् अयोध्यायाम् उपागत्य पुण्यन्नि विधिपूर्वकम् अभिषेकम् तदा चक्रु हरिश्चन्द्रस्य मूर्धिते अभिषिक्त तेजस्री सती वैश्चन्द्र उपाध्याय राज्यं चकार धर्मीथ पितरं चिन्तयन् दृशम् इति श्रीमद्देवी भागवते महापुराणे अष्टादशतां संहितायां सप्तमस्कन्धे श्रीशङ्कोपाख्यानवर्णम् नाम द्वादशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु